मुद्गलपुराणं खण्डम् एय्ट् धूम्रवर्णचरितम् अध्यायं तर्टि सेवेन् चातुर्मास्यमाहात्म्ये विभाण्डव्रतोपदेशवर्णनम् श्रीगणेशाय नमः शौनक उवाच चातुर्मास्यव्रतं ब्रूहि गणेश्यं सर्वदायकम् न तृप्यामि कथां श्रुत्वा नानाश्चर्यविवर्धिनीं सूत उवाच अत्र ते कथयिष्यामि पुरातनभवम् परम् इतिहासं महाभागश्रवणात् सर्वदायकम् बृहदश्व इति ख्यातो ब्राह्मण तपोयुक्तो महातेजाशापानुग्रहणे क्षमः नानात्तपप्रभावेणान्तर्ज्ञानं संबभूवः हृदि तस्य ततसोऽपि शमदमपरो भवद सोऽब्रह्मणि संस्थोऽभूत् अन्ते शून्यमये मुनिः शान्तियुक्तस्वभावेन संस्थितो ब्रह्म वित्समः तस्याश्रमे महायोगी विभाण्डः सहसागदः तं प्रणम्य महाभागं पुपूज भक्ति संयुधः विश्रान्तं मुनिमुख्यं स जगादहर्षसंयुधः विभाण्डं विनयेनैव युक्तो वचनमुत्तमम् बृहदश्व उवाच निरालम्बमयं ब्रह्म सदैकरूपधारकं ध्यादृध्यानविहीनं यत्तत्त्वमेव न संशयः महाभाग्येन दृष्ट्वा त्वां साक्षात् योगीश्वरं परम् अधुना कृतकृत्योऽहं जादस्ते पाददर्शनाद एवं तस्य वच श्रुत्वा विभाण्डस्तमुवाचः योगयुक्तं सुनैपुण्यं ज्ञात्वा शान्तिप्रदायकः विभाण्ड उवाच अहं गणेशरूपश्चेत्तत्रैकत्वं न विद्यते निरालम्बभवं सौख्यं मुने कुत्र प्रवर्तते तस्य तद्वचनं श्रुत्वा बृहदश्वस्तमब्रवीत सुशान्तिदं विस्मितः तदर्थं लालसी सदा बृहदश्व उवाच पूर्णशान्तिप्रदं नाथ वद मां करुणानिधे सोकङ्कारात् परं भावं न जानामि कदाचन विभाण्ड उवाच अहम् पुरो तपो निष्ठो भवम् तत्र समाययुः इन्द्रेण ना प्रेषिदा नार्यस्तपो भगार्थमादराद नृत्यकानादिचिह्नैर्मां मोहनाय समुद्यताः अप्सरसस्तदो धैर्यमहं धृत्वा स्थितो भवम् तत्रोधि हठ संयुक्तास्त्रिह्यत् कामसमन्विताः हावभावकटाक्षाद्यैश्चिह्नैर्मां समपीडयन् तदो मे विह्वलत्वाद्वै वीर्यं पपादभूदले तृणयुक्ते सुसं खिन्नो गमं त्यक्त्वा स्वमाश्रमं तदस्त्वप्सरससर्वाः जग्मुस्वर्गं महामुने आफं जाजलिकं विप्रमगमं तं नदो भवं तेन सम्मानिदो नित्यमवशं तपसायुधः अवदं गाणनाथस्य पूजने सक्तमादराद एकनिष्ठतया स्वामिन्नित्यं भक्तिसमन्वितः त्यक्त्वा देवेन्द्रकान् सर्वान् गणेशं भजसे कथम् एवं पृष्ठो मया योगी जाजलिः परमार्थविद मामुवाच दयायुक्तस्तत्तेऽहं कथयामि तु जाजलिरुवाच गणेशान्नपरं ब्रह्मवेदे पश्य महामदे संज्ञं तं वदन्ति वेदवादिनः अहं पुरातपोनिष्ठो भवं नित्यं महामुने अत्यन्ततपसा मे भूद्व्याप्तं सर्वं चराचरं ततो कस्मात् समायादमाश्रमे मे महामुनिः लोमशं तं प्रणम्याहमपूज्यं भक्तिसंयुधः ततो मामब्रविद्विप्रो लोमश्च सर्वविन्मुनिः दयायुक्तस्वभावेन महायोगीन्द्रवन्दिदः लोमश उवाच किं तपोनिष्टभावेन साध्यं कर्तुमभीप्सी योगं साधय तत्त्वज्ञस्वयं ब्रह्म भविष्यसि तपसा सर्वभोगश्च लभ्यते सदा पुनः पतनभावा तन्नमत्तं द्वन्द्वः संयुधः एवं तस्य वच तं प्रणम्य पुनर्मुनिं अपृच्छं योगदं मार्गं विनयेन समन्वितः केन मार्गेण योगज्ञ लभे योगं महामुने तं वद स्वकरिष्यामि त्वच्छिष्योऽहं विधानदः लोमश उवाच पुराहं कर्मयोगेन मूकस्तपः समन्वितः प्रणम्यभक्त्या ब्रह्माणमपृच्छं सर्वदं वद तदस्तेन समाख्यातं सर्वसारं सुशान्दिदं गाणेशं सर्वमान्यं तत्पुराणं संश्रुतं मया श्रवणस्य च माहात्म्याद् वाणीयुक्तो भवं पुरा ततो मुने विधिं नदो विभुम् ततः गत्वा गणेशकथितं परं गीताज्ञानं समाराध्य योगिवन्द्यो भवं मुदा तदो गणेश्वरं स्थाप्य स्वाश्रमे तं विधानदः पूज्य ध्यानपरो भूत्वा तोषयामि स्म विघ्नवं एकाक्षरजपासक्तमां ज्ञात्वा गणनायकः शतवर्षैः प्रसन्नोऽभूदाययौ वरदप्रभुः समागतं समालोक्योद्धायनत्वागजाननं पूज्य नानाविधैस्तोत्राय स्तुतोत्सौ मामुवाच ह श्रीगणेश उवाच परं वृणु महाभागेप्सितं मनसि लो मश दास्यामि तपसा तुष्टो भक्त्या दे मुनि सत्तमा लोमच उवाच गणपत्यं कुरुष्व त्वं मां ते भक्तिसमन्वितं नान्यं याजे वरं नाथ मिथ्या मायाभ्रमात्मकम् आयुष्यं विपुलं देहि तेन युक्तो निरन्तरं भजिष्यामि गणेशानुचरणं दे तदर्थतः ततो मामब्रवीद्देवो गणेशो भक्तवत्कलः गणपत्यप्रियोऽत्यन्तं भविष्यसि स्वयं मुदा कल्पे कल्पे च लयं गच्छति नित्यदा एवं क्रमेण सर्वाणि यान्दिलोमानिनाशकं तदादेकं परित्यज्य मल्लोके आगमिष्यति तत्र मां भक्त्रिभावेन भजिष्यसि न संशयः यद्यदिच्छसि योगीश तत्तत्ते सफलं सदा भविष्यदि स्मृतकार्ये भवामिते भवामि ते यवमुक्त्वा गणेशो ब्रह्मनायकः खिन्नोऽहं तं समास्थाप्य नित्यपूजा परायणः तदो बहौ गते काले मुने मन्वन्तरात्मके मखवान्यसमुत्पन्नस्त्रिलोकी राज्यकारकः विश्वकर्माणमाहूय जगादमखवावचः गृहं मे कुरु शोभाढ्यं परम् वाटिकादिकमेवं मे भोगार्थं रचयस्व च तथेदि विश्वकर्मासौ चकार दुःखसंयुधः तथापि मखवाशान्दो न बभूव महामुने तेनाश्चर्ययुधो नित्यमिदं कुरु महामदे विश्वकर्मा तदखिन्नः सस्मार गणनायकम् इन्द्रं त्यक्त्वान्यदेवानां गृहार्थं व्याकुलो भवद कदायं गृहकार्यं तु गजाननः समाप्य कार्यसिद्धये ततोऽहम् दैवयोगेनागमं देवेन्द्रसप्तमं मघवा पूज्य मां वाक्यं जगाद हर्षसंयुधः इन्द्र उवाच धन्यं मे जन्मकर्मादित्वत्पादयुगदर्शनाद किं पत्रं विप्र पलाशस्य धृतं वद लोमश उवाच देहो नश्वररूपोऽयं पदिष्यदिनसंशयः न संशयः तदर्थं गृहसम्भूतं श्रमम् कः प्रसमाचरेद वृष्टि संवारणार्थायोष्णभावार्थनिवारणाद mm -hmm. पत्रम् गृहस्वरूपं तु पुरन्तरधृतं एवं मद्गिरमाकर्ण्य मामुवाच पुरन्दरः कल्पे लोम्न प्रणाशस्ते भवेत्ते नैव आज्ञाम् कुरु महाभागत्वदर्थम् गृहमुत्तमम् कारयिष्यामि विप्रेष तत्र नित्यं सुखी भव वयं चतुर्दशप्राज्ञा भवन्त्वल्लो मनाशके तदपित्वं त्वं किमर्धं तं देहं वदसि नश्वरं श्रुत्वा तमवदं हर्षसं युधः इन्द्र त्वं वदसि भ्रान्दिदं योगनाशनम् नष्टं देहं समालोक्य क्राम्येत्तत्र पण्डितः योगामृदेन सन्तुष्टोऽहं भ्रमामि जगृच्छया पिपीलिका भवेच्छेन्द्रो नरस्युद्युम्न सञ्ज्ञितः पूर्वसंस्कारयोगेनाश्वमेधशतकारकाः स त्वं यज्ञफलं भोक्तुं जातोसि मखवाध्वना पदिष्यसि पुनर्देव तत्र कादे गदिर्भवेद युक्त्वा महायोगी लोमश स्वप्रभावदः ददौ जातिस्मरत्वं तु मखवदे महायशाः मखवा सर्वमालोक्यत्रा बभूवः प्रणम्यलो महशंसोऽपि पप्र हितकारकम् इन्द्र उवाच जन्म मृत्युपरं वदयोगं परात्परं येन कामादिकं सर्वं नाशं गच्छति तत्क्षणाद रोमश उवाच गणेशं भजभावेन तदो योगमवाप्स्यसि ब्रह्मणां ब्रह्मरूपोऽयं सदा शान्तिपरायणः इन्द्र उवाच नामरूपधरम् देवं वदसे किं योगाकारं महाभाग वद तस्य महोमहद लोमश उवाच योगरूपो गणेशोऽयं योगप्राप्त्यर्थमादराद नाम रूपधरो जादो भक्तानां क्रीडनोत्सुकः सम्प्रज्ञादमयो देहोमस्तकं गजवाचकम् असम्प्रज्ञादरूपं तत्तयोर्योगे गजाननः सिद्धिर्भ्रान्तिकरी माया बुद्धिर्भ्रान्तिधरामदा ताभ्यां क्रीडति ब्रह्मेशो जगत्सुब्रह्म सुप्रभो स्वसंवेद्येन योगेन दर्शनं तस्य जायते तेन स्वानन्दवासी स कथितशास्त्रवादिभिः गणाःसमूहरूपाश्च बाह्यान्तरादियोगदः ब्रह्माकारो गणेशानस्तेषां स्वामी प्रकीर्तितः यवमुक्त्वा महायोगी लोमशो मन्त्रमादिशद षडक्षरं गणेशस्येन्द्रार्थम् विधिसमन्वितम् इन्द्रप्रणम्य विप्रेशमुवाच विनयान्विदः वद शीघ्रं गणेशस्य दर्शनं मे कथं भवेद् लोमच उवाच दक्षिणायनरूपासा रात्रिर्देवी दिवौकसां रात्रौ कर्माधिकारो नराणां भूनिवासिनाम् तत् ज्ञात्वा दुःखसंयुक्ता रात्रिर्ब्रह्माणमावदथ सत्कर्मसंयुदां नाथ मां तदो ब्रह्मा ददौ तस्यै मन्त्रं षोडशवर्णकं गणेशस्य ययौ सातं प्रणम्यवनमुत्तमं ध्यात्वा हृदि गणाधीशं तताप तप उत्तमम् आषाढ्यां पूर्णिमायां सा समारेभे ततः परं कार्तिक्यां पूर्णिमायां तां प्रसन्नो भूद्गजाननः आययौ वरदानार्थं रात्रिं भक्तिनियन्द्रिदः समागतं गणाध्यक्षं सा विलोक्यननामतम् भक्रि नम्रात्म नम्रत्मक तत प्रसन्नताधो गणेशवाच वरान्वर रात्रे दाया हृति ते स्त्रिवाच भक् चेनाथ देहि मेनन्यधर्मिणीं सत्कर्म संयुधां मां त्वं कुरुष्व रात्र्यपि प्रभो तस्यास्तद्वचनं श्रुत्वा तां जगाद गजाननः भक्तिर्मदीयपादेते भविष्यदि महामदे आषाढी पूर्णिमाद्यं च कार्तिकी चादुर्मास्यं सिद्धिदं च भविष्यदि सुधर्मिणां गाणेश पञ्चकं सेव्यं चादुर्मास्ये त्वदीयिके सर्वसिद्धिसमायुक्ता भविष्यसि न संशयः षण्मासेषु महाभागे भव सत्कर्म नानादेवप्रियात्यन्तं सत्कर्मणः प्रदापतः विवाहादिकमेवं ते समयेन भविष्यति अन्यन्नाविधं कर्म देवतोषं तथास्तु च चातुर्मास्य व्रतेनैव मां नराः सां वत्सरभवम् पुण्यं लभन्ते पूर्णभावदः यवमुक्त्वा दर्दधेसौ गणेशो भक्तवत्सलः रात्रिस्थम् प्रणिपत्यैव हर्षयुक्ता भवत्सदा अतस्त्वम् देवराजेन्द्रचादुर्मास्य व्रतं कुरु योगयुक्तो महाभागो भविष्यसि न संशयः यवमुत्वा महेन्द्रम् तम् पूजितस्तेन चागमम् स्वस्याश्रमम् गणेशानमभजम् मुनिसत्तम इन्द्रस्तदसमाहूय विश्वकर्माणमादराद जगाद तम् महाभागम् गच्छ सुर विश्वकर्माय यौस्थानं स्वकीयं हर्षसंयुधः अभजत् गणनाथं स विस्मितः सन् इन्द्रोराज्यं विनिक्षिप्य देवेषु वनभो भवद ध्यात्वा हृदि गणेशानमचपन् मन्त्रमुत्तमम् चादुर्मास्य चक्रे गाणेशे पञ्चके नदः तेन व्रतप्रभावेण योगयुक्तो बभूवः चितमोहं परित्यज्य स चिन्तामणि तन्मयः भूत्वा स्वगृहमागत्य चकारराज्यमुत्तमं निःस्पृहः सर्वभोगेषु सदा विघ्नेशतत्परः बभूव राज्यसंस्थोऽपि महेन्द्रः परमार्थविद नित्यव्रतं चकारासौ महेन्द्रो भक्त्रिसंयुधः चादुर्मास्य भवं विप्रसर्वसिद्धिप्रदायकं भुक्त्वा मन्वन्तरस्थं स्वराज्यं निहतकण्टकम् अन्ते स्वानन्दगो भूत्वा ब्रह्मभूतो बभूवः जाजलिरुवाच जा देवा कर्मफलं भुक्त्वा पतन्ति भूमिमण्डले स्वर्गेषु यत्कृतं कर्म फलहीनं महाभाग इन्द्रकथं महाभागचादुर्मास्यव्रतोद्भवं फलं प्राप्य गणेशानं यया वन्दे वदप्रभो लोमश उवाच त्वयोक्तं जाजले वाक्यं तदेव सर्वसम्मतं स्वर्गभूमौ कृतं कर्म निष्फलम् जायते सदा पृथिव्याम् भारते खण्डे समागत्य महामुने देवा कुर्वन्ति कर्माणि तानि सत्फलकानि तु कर्म भूमु कृद कर्म देवर्वा दानवैर्नर जंतुभ सफल संभव अदो व्रत मुख्यतम कुर विघ्नेशतर चुर्मा से चिंत्र गणेश पंचकेद गणेशशय अन्ते तल्लीनदां विप्रगमिष्यसि विशेषतः जाजलित्तं प्रणम्या ददौ लोमशं गुरुमुख्यकं जगामस्वाश्रमं त्यक्त्वा बल्लालेशं महामधिः तत्रगत्वा गत्वा व्रतं मुख्यं चकारभक्तिसंयुधः चादुर्मास्ये यथा शास्त्रयुक्तं पयः प्रभक्षयन् समाप्ते तद्व्रते सद्यप्रसन्नो गणनायकः आययौ जाजलिं विप्रं वरदो भक्तवत्सलः समागतं समालोक्य जाजलिः प्रणनामः पूज्य नम्य प्रदुष्ठावकृत्वा करपुटं प्रभुं जाजलिरुवाच नमस्ते ब्रह्मनादा बल्लाशस्वू बल वरदा गणेशा नमो नम विघ्य महा भक्तनाधाया परात्मे भक्तािणे परात्तराय सगुणा चुर्भुज निर्गुणा तयोर्योगे हे रम्बाय नमो नमः वक्रतुण्डाय देवायैकदन्दाय महोदर लम्बोदराय सर्वेषां मात्रे पित्रे नमो नमः स्वानन्दवासिने तुभ्यं सदा स्वानन्दभोगिने नाना मायाप्रचालाय मायिकाय नमो नमः सिद्धिबुद्धिपदे तुभ्यं सिद्धिबुद्धिमयायते अमेयशक्तये चैव शक्तिहीनायते नमः देवाय दानवायैव देवदानवमर्दिने सर्वाकाराय सर्वेभ्यो हीनायते नमो नमः योगानां योगनाधाय शान्तिनां शान्तिरूपिणे ब्रह्मणां पदये तुभ्यं चिन्तामणे नमो नमः किं स्तौमि त्वां गणाध्यक्ष यत्र वेदा विसिस्मिरे धन्योकं सर्वभाव। पश्यामि त्वां योगरूपिणं युक्त्वा गणेशानं न नाम भक्तिभावदः तमुद्भाप्य गणेशानो जगाद भक्तवत्सलभा श्रीगणेश उवाच त्वया कृतमिदं स्तोत्रम् सर्वसिद्धिकरम् भवेद् पठताम् शृण्वताम् विप्रमयिभक्तिविवर्धनम् वरान् ब्रूहि दास्यामि मनसीप्सितान् तपसा भक्तिभावेन तुष्टो व्रतेन निश्चितम् जाजलिरुवाच तव भक्तिं स्थिरां देहि गाणपत्यपदप्रदां योगशान्तिकरीं नाथ नान्यं याजे गजानन ॐमित्युक्त्वा गणाधीषों तर्दधे मुनिसतम जा जलिस्तं प्रणम्यैव कर्षयुक्तो बभूवः एवं व्रतस्यमाहात्म्यं विभाण्डकथितं मया येनाखं योगिनां वन्द्यो भवं योगपरायणः तदादिवार्षिकं विप्र चातुर्मास्य भवं व्रतं करोमि गणप्रीत्यै बलालेशं समाश्रिदः त्वमप्येतादृशं विप्रव्रदं कुरु महाद्भुतं चातुर्मास्ये महायोगी वन्द्यसद्यो भविष्यसि यवमुक्त्वा ददौ तस्मै मन्त्रमष्टाक्षरं सविधिं गणराजस्य विभाण्डाय महात्मने ॐ तत्सदि श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खण्डे धूम्रवर्णचरिते चादुर्मास्यमाहात्म्ये विभाण्डव्रतोपदेशवर्णनं नाम सप्तत्रिंशोऽध्यायः ओम्